ॐ चण्डीश्वराय नमः ॐ चण्डहृदयनन्दनाय नमः ॐ चूटामणिधराय नमः ॐ चतुर्मुखाय नमः ॐ चतुर्भाहवे नमः ॐ चतुष्पाधाय नमः ॐ चतुर्वेदाय नमः ॐ चतुर्भावाय नमः ॐ चतुराय नमः ॐ चतुरप्रियाय नमः चतुर्भोघाय नमः ॐ चतुर्हस्ताय नमः ॐ चतुर्मूर्तिधराय नमः ॐ चतुराननाय नमः ॐ चतुर्व्यूहात्मने नमः ॐ चतुर्वेदसर्गप्रभवे नमः ॐ चतुस्सष्यात्मतत्त्वाय नमः ॐ चतुर्वक्त्रात्मने नमः ॐ चतुर्भुजाय नमः र्दार्द्याय नमः ॐ चतुःषष्टिकलानिधये नमः ॐ चतुर्मुखहराय नमः ॐ चतुर्थसंस्थिताय नमः ॐ चित्रवेशाय नमः ॐ चित्ताय नमः ॐ चित्याय नमः ॐ चित्राय नमः ॐ चित्रगर्भाय नमः ॐ चितये नमः ॐ चितिरूपाय नमः ॐ चित्रवर्णाय नमः ॐ चित्संस्थाय नमः ॐ चिन्त्याय नमः ॐ चिन्तनीयाय नमः ॐ चिन्तितार्थप्रधाय नमः ॐ चित्रफलप्रयोत्रे नमः ॐ चित्रात्वरभागभो त्रे नमः ॐ चिन्त्यागमपाधाङ्गुलये नमः ॐ चित्स्वरूपिणे नमः ॐ चित्रचारित्राय नमः ित्रगण्डाय नमः ॐ चिन्तामणये नमः ॐ चिन्तितसारथये नमः ॐ चिन्तिताय नमः ॐ चिन्त्या चिन्त्याय नमः ॐ चिन्ताधराय नमः ॐ चित्तार्पिताय नमः ॐ चित्तमयाय नमः ॐ चित्साराय नमः ॐ चित्रविद्यामयाय नमः ॐ शूतालयाय नमः ॐ चेतनाय सहारिणे नमः ॐ चेतनाय नमः ॐ चैतन्यविषयाय नमः ॐ चन्द्रमौलये नमः ॐ चन्द्रपीडाय नमः ॐ चन्द्रसञ्जीवनाय नमः ॐ चन्द्रसूटामणये नमः ॐ चन्द्राय नमः ॐ चन्द्रशूटाय नमः ॐ चन्द्रकोटिसुशीतलाय नमः ॐ चन्द्रेश्वराय नमः ॐ चन्द्रमण्डलवासिने नमः ॐ चन्द्रबिम्बस्थिताय नमः ॐ चन्दनलिप्ताय नमः ॐ चन्द्रवक्त्राय नमः ॐ चन्द्रमौळीविभूषणाय नमः ॐ चन्द्रार्धमकुडोज्वलाय नमः ॐ चन्द्राग्निसूर्यात्मनेत्रा य नमः ॐ चन्द्रिकानिर्गमप्रायविलसत् सुस्मिताननाय नमः ॐ चन्द्रार्गमौलये नमः ॐ चन्द्रकलोधंसाय नमः ॐ चन्द्रार्गभूषिताय नमः ॐ चन्द्रसहस्रगोचराय नमः ॐ चन्द्रार्घवैश्वानरलोचनाय नमः ॐ चन्द्रावयवभूषणाय नमः ॐ चन्द्रभूषणाय नमः ॐ चन्द्रसौम्यवराननाय नमः ॐ चन्द्ररूपाय नमः ॐ चन्द्रशेखराय नमः चन्द्रकलावतंसाय नमः ॐ चन्द्रार्घकृतशेखय नमः ॐ चन्द्रावयवलक्षणाय नमः ॐ चन्द्रज्ञानागमवक्षसे नमः ॐ चन्द्रात्मने नमः ॐ चन्द्रिकाधाररूपिणे नमः ॐ संक्षिणकर्णभूषणाय नमः ॐ चन्द्राङ्किताय नमः ॐ चिदात्मकाय नमः ॐ चिदानन्दमयाय नमः ॐ चिदात्मने नमः ॐ चिद्विग्रहतराय नमः ॐ चिताभासाय नमः ॐ चिन्मात्राय नमः ॐ चिन्मयाय नमः ॐ चिन्मुद्रितकराय नमः ॐ चमुस्तम्भनाय नमः ॐ शमीकरमहाशैलकार्मुखाय नमः ॐ चामुण्डा य नमः ॐ चर्मिणे नमः ॐ चराचरात्मने नमः ॐ चराय नमः ॐ सराचररस्थूलसूक्ष्मकल्पकाय नमः ॐ चर्माङ्कुशधराय नमः ॐ चर्मविभवधारिणे नमः ॐ सराचररचराचारविारवर्याय नमः ॐ चराचरगुरवे नमः ॐ चर्मवाससे नमः ॐ चराचराय नमः ॐ चराचरमयाय नमः ॐ चारुलिङ्गाय नमः ॐ चारुचामिकराभाषाय नमः ॐ चारुचर्माम्बराय नमः ॐ चारुस्मिताय नमः ॐ चारुदीप्ताय नमः ॐ चारुचन्द्रकलावतंसाय नमः ॐ चारुप्रसन्नसुप्रीतवदनाय नमः ॐ चारुसीतांशुसकलशेखराय नमः ॐ चारुविक्रमाय नमः ॐ चारुधिये नमः ारवे नमः ॐ चिरन्तनाय नमः ॐ चलाय नमः ॐ सक्षुष्याय नमः ॐ चक्षुश्रवकल्पितकण्डभूषणाय नमः ॐ चकारस्य भद्रकाली देवता ब्रह्मरक्षोहनने विनियोग नमः छत्राय नमः ॐ छत्रणे नमः ॐ छत्रप्रियाय नमः ॐ छत्रधारिणे नमः ॐ छत्रधाय नमः ॐ छात्राय नमः ॐ छात्रपालकाय नमः ॐ छन्दःसाराय नमः ॐ छन्दसाम्पतये नमः ॐ छन्दशास्त्रविसारदाय नमः ॐ छन्दाय नमः ॐ छन्दोरूपाय नमः ॐ छन्दो नमः ॐ न्दोमयाय नमः ॐ छन्दोभेधाय नमः ॐ चान्दोग्याय नमः ॐ चान्दोज्ञस्तुताय नमः ॐ छन्दोघाय नमः ॐ चन्मचारिणे नमः ॐ चन्मरहस्यवधे नमः ॐ छेदकृते नमः ॐ छन्दवीराय नमः ॐ चिन्नसंशयाय नमः ॐ चिन्नमस्ताय नमः ॐ चिन्नमस्ता प्रसाधकाय नमः ॐ चिन्नताण्डवसम्भूदाय नमः ॐ चिन्नयोगविशारदाय नमः ॐ श्रीबीजदपतत्पराय नमः ॐ चलिने नमः ॐ चम्वामकर्णभूषणाय नमः ॐ जगारस्य इन्द्रो देवता जरामृत्युनाशने विनियोग नमः ॐ जगत्पित्रे नमः ॐ जगधाम्पतये नमः ॐ जगद्गात्रे नमः ॐ जगदुद्धाराय नमः ॐ जगत्प्राणाय नमः ॐ जगदीशाय नमः ॐ जगधाम् नमः ॐ जगद्गुरवे नमः ॐ जगदस्तस्तुक्षस्ततये नमः ॐ जगत्संहारकाय नमः ॐ जगदाधारशारासाय नमः ॐ जगत्यन्द्रप्रवर्तिने नमः ॐ जगन्नाथाय नमः ॐ जगत्त्रयेशाय नमः ॐ जगद्व्यापिने नमः ॐ जगदप्रभवे नमः ॐ जगद्वीजाय नमः ॐ जगदुत्पादनप्रवीणनियन्तो नमः ॐ जगतामेकजीवनाय नमः ॐ जगत्तावरमूर्तये नमः ॐ जगत्कालाय नमः ॐ जगतां नमः ॐ जगत् नमः जगदानन्दकराय नमः ॐ जगत्सृष्टिस्थितिलयकारिणे नमः ॐ जगत्कारणाय नमः ॐ जगधन्त्रात्मने नमः ॐ जगदो हेतुभूताय नमः ॐ जगतामेकनाथाय नमः ॐ जगत्बन्धवे नमः ॐ जगदां परिपालकाय नमः ॐ जगद्द्योनये नमः ॐ जगद्वन्धाय नमः ॐ जगत्स्रष्ट्रे नमः ॐ जगतवनकर्मटसराष्ट्राय नमः ॐ जगत्पतये नमः ॐ जगतां शर्मणे नमः ॐ जगद्गोप्त्रे नमः ॐ जगतां जनकाय नमः ॐ जगद्रूपिणे नमः ॐ जगतीशानाय नमः ॐ जगद्वंशिने नमः ॐ जगन्मूर्तये नमः ॐ जगत् हेतवे नमः ॐ जगन्मयाय नमः ॐ जगत्स्थावरजङ्गमाय नमः ॐ जगत्रात्रे नमः ॐ जगत्ताय नमः ॐ जगदुज्जीवनकौतुकिने नमः ॐ जगद्दतिदोषिने नमः ॐ जगत्रयसंरक्षा जागरूकाय नमः ॐ जगदधिकाय नमः ॐ जङ्गमाय नमः ॐ जङ्गमात्मकाय नमः ॐ जङ्गमा जङ्गमात्मकाय नमः ॐ जौगीषव्येश्वराय नमः ॐ जगदातिजाय नमः ॐ जगनीयाय नमः ॐ जडाधराय नमः ॐ जटामण्डलमण्डिताय नमः ॐ जटापटलकोटीरजङ्घापूरविराजिताय नमः ॐ जटिलाय नमः ॐ जडाजूडप्रशोभिताय नमः ॐ जटीशाय नमः ॐ जटामुकुटमण्डिताय नमः ॐ जडामण्डलगह्वराय नमः ॐ जटाभस्मभूषिताय नमः धराय नमः ॐ जटाजूडं गोत्तरं घैर्विलाशाय नमः ॐ जटाकटाहसं ब्रह्म ब्रह्मनिलिम्ब्य निर्जरि विलोलवीशिवल्लरि विराजमानमूर्घने नमः ॐ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभावकदम्बकुङ्गुमद्रव प्रलिप्त दिगवधूमुखाय नमः ॐ जठराय नमः ॐ जठराग्निप्रवर्तकाय नमः ॐ जाट्यहराय नमः ॐ जादुकर्ण्याय नमः ॐ जातये नमः ॐ जातिनाताय नमः ॐ जातिवर्णलहिताय बिभ्राग्नगत्वो न विश्रुताय ॐ जितशत्रवे नमः ॐ जितकामाय नमः ॐ जितप्रियाय नमः ॐ जितेन्द्रियाय नमः ॐ जितविश्वाय नमः ॐ जितश्रमाय नमः ॐ जितलोभाय नमः ॐ जितक्रोधाय नमः ॐ जितनित्यशत्रुगणाय नमः ॐ जितारातये नमः ॐ जेत्रे नमः ॐ जैत्राय नमः ॐ ज्योतिस्वरूपाय नमः ॐ ज्योतिष्मते नमः ॐ ज्योतिर्मयाय नमः ॐ ज्योतिषामयाय नमः ॐ ज्योतिलिङ्गाय नमः ॐ ज्योतिषे नमः ॐ ज्योतिषामुत्तमाय नमः ॐ ज्योतिरूपधाय नमः ॐ ज्योतिषां नमः ॐ ज्योतिशास्त्रविचारधृते नमः ॐ ज्योत्स्नामयाय नमः ॐ ज्योत्स्नाजालप्रवर्तकाय नमः ॐ ज्योतिर्मयानन्दधनाय नमः ॐ जं दक्षिणकर्णकुण्डलाय नमः ॐ जनकाय नमः ॐ जन्याय नमः ॐ जननाय नमः ॐ जन्मादये नमः ॐ जन्माधिपाय नमः ॐ जन्ममृत्युजराधिकाय नमः ॐ जनाधिपाय नमः ॐ जनाय नमः ॐ जनतपोरूपाय नमः ॐ जन्मनोगधिं दिशते नमः ॐ जननविनाशविहीनविग्रहाय नमः जन्महराय नमः ॐ जन्माधिकारणहेतवे नमः ॐ जन्मनासादिवर्जिताय नमः ॐ जन्माद्याय नमः ॐ जनितानन्तलोकाय नमः ॐ जन्मभूमये नमः ॐ जन्मिने नमः ॐ जनितानन्दरूपिणे नमः ॐ जन्मकृधोधराय नमः ॐ जन्मवते नमः ॐ जन्मादिनाशकाय नमः ॐ जन्मविवर्जिताय नमः ॐ जननीनाथाय नमः ॐ जन्मदुःखविनाशनलिङ्गाय नमः ॐ जनयित्रे नमः ॐ जननीतिविशारदाय नमः ॐ जिनाय नमः ॐ जिनाय नमः ॐ जिननेत्रे नमः ॐ जिनशास्त्रप्रवर्तकाय नमः ॐ जैन मार्गरताय नमः ॐ जैनाय नमः ॐ जपाय नमः ॐ जपहोमस्वरूपिणे नमः ॐ जप्याय नमः ॐ जबापुष्पप्रियाय नमः ॐ जभादण्डिमरागधृते नमः ॐ जपतत्पराय नमः ॐ जपमालिने नमः ॐ जाम्बूनदलताभूतनागयज्ञोपवीतिने नमः ॐ जापालीपूज्याय नमः ॐ जाम्बवत्प्रियाय नमः ॐ जृम्बते नमः ॐ जमदग्नये नमः ॐ जमदग्निपूजिताय नमः ॐ जामदग्नये नमः ॐ जमदग्निसमर्चिताय नमः ॐ जामीफलप्रियाय नमः ॐ जीमूतवाहनाय नमः ॐ जीमूतवरदाय नमः ॐ जीमूताय नमः ॐ जयकालविधे नमः ॐ जयाय नमः ॐ जयस्तम्पाय नमः ॐ जयशालिने नमः ॐ जयन्ताय नमः ॐ जयशीलाय नमः ॐ जयप्रदाय नमः ॐ जीर्णाय नमः ॐ जराधिशमनाय नमः ॐ जराधिघाय नमः ॐ जराहीनाय नमः ॐ जराठाय नमः ॐ जरक्षाराय नमः ॐ जरासन्धसमर्चिताय नमः ॐ जराहराय नमः ॐ जराय नमः ॐ जीर्णाजीर्णपतये नमः ॐ जलभूताय नमः ॐ जलसायिने नमः ॐ जलरूपाय नमः ॐ जलाय नमः ॐ जलसाय नमः ॐ जलेश्वराय नमः ॐ जलोद्भवाय नमः ॐ जलन्धरशिरश्चेत्रे नमः ॐ जलन्धरासुरशिरश्चेतकाय नमः ॐ ज्वालान्धरपीठेश्वराय नमः ॐ ज्वलत्पावकलोचनाय नमः ॐ ज्वलज्ज्वालावलीभीमविषग्नाय नमः ॐ ज्वलनस्तम्भमूर्तये नमः ॐ ज्वलज्ज्वालामालिने नमः ॐ जं ललाटभूषणाय नमः ॐ ज्वालिने नमः ॐ ज्वालामालावृताय नमः ॐ ज्वालान्धरहराय नमः ॐ जीवाय नमः ॐ जीवातवे नमः ॐ जीवनौषधाय नमः ॐ जीवनाधाराय नमः ॐ जीवितेशाय नमः ॐ जीवनाय नमः ॐ जीवरदाय नमः ॐ जीवितेशाय नमः ॐ जीवितेश्वराय नमः ॐ जीवितान्तकाय नमः ॐ जिष्णवे नमः ॐ ज्येष्ठाय नमः ॐ जिग्वायतनाय नमः ॐ जकारस्य ब्रह्मादेवता धर्मार्थकामममममोक्षार्थे विनियोग नमः मकर्णभूषणाय नमः ॐ जरिणे नमः ॐ जर्घरिकाय नमः ॐ जंझावायुस्पारदघण्डत्वनये नमः ॐ यकारस्य शूलायुधो देवतामोहनार्ते विनियोग नमः ॐ ज्ञानगम्याय नमः ॐ ज्ञानवते नमः ॐ ज्ञानस्कन्धाय नमः ॐ ज्ञाननिधये नमः ॐ ज्ञानिने नमः ॐ ज्ञानाय नमः ॐ ज्ञानदीपाय नमः ॐ ज्ञानशक्तिक्रियाशक्तिनियुक्ताय नमः ॐ ज्ञानीनामीश्वराय नमः ॐ ज्ञानलिङ्गाय नमः ॐ ज्ञानवरप्रदाय नमः ॐ ज्ञानानन्दमयाय नमः ॐ ज्ञानरूपाय नमः ॐ ज्ञानबीजाय नमः ॐ ज्ञानचन्द्रकलाशेखराय नमः ॐ ज्ञानमाल्यालङ्कृताय नमः ॐ ज्ञानदाय नमः ॐ ज्ञानमुद्रालसद्भागवे नमः ॐ ज्ञानातीताय नमः ॐ ज्ञानेश्वराय नमः ॐ ज्ञानकैवल्यनाम्ने नमः ॐ ज्ञानमार्गपरायणाय नमः ॐ ज्ञानकाण्डाय नमः ॐ ज्ञानोदयकराय नमः ॐ ज्ञानविषयाय नमः ॐ ज्ञानगोचराय नमः ॐ ज्ञेयकाण्डाय नमः ज्ञेयाज्ञेयविवर्जिताय नमः ॐ ज्ञानाद्यनुग्रहनिमित्तसदाशिवातिनारूपदृते नमः ॐ टकारस्य भूमिर्देवताशोभनार्थे विनियोग नमः ॐकाराक्षरभूषिताय नमः ॐकाराय नमः ॐकारिणे नमः ॐ टम्किकाप्रियाय नमः ॐ तम्कारस्त्रधारिणे नमः ॐिं टिं ध्वनिरथाय नमः ॐनाथप्रियाय नमः ॐ तां टीं टूं जपसन्तुष्टाय नमः ॐ ताकृतिष्ठदाय नमः ॐ तं नमः टिट्टिभाय नमः ॐ्टिभाननाय नमः ॐ्टिभानन्तसहिताय नमः ॐ काटिपणकारकाय नमः ॐ तकारस्य चन्द्रो देवताविगनमृत्युविनाशने विनियोग नमः ॐकुराय नमः ॐ ठाकुराय नमः ॐ क्रैवेयकाय नमः ॐबीजपरायणाय नमः ॐ तस्ताय नमः ॐ टमूर्तये नमः ॐगारस्य गरुडो देवता विषनासनो विनियोग नमः म्बुरोभूषणाय नमः ॐकाराय नमः ॐकारात्मने नमः ॐ ढाम्कराय नमः ॐकिन्यां भीमशङ्कराय नमः ॐ डिण्डिवातनतत्पराय नमः ॐ धामरिशक्तिरञ्जिताय नमः ॐ धामराय नमः ॐ डामरीषाय नमः ॐमरुनादनतत्पराय नमः ॐ ढारस्य ऐरावतो देवता सङ्कपद्मनिधिधाने विनियोग नमः ॐकृतये नमः ॐ ढावाधनतत्पराय नमः डीं डों डैं डं सप्ततत्पराय नमः ॐ धाङ्गपूजिताय नमः ॐानाथप्रियाय नमः ॐ नमः ॐ नमः ॐ ढां पतये नमः ॐ नमः ढकारकाय नमः ॐूं नमः ॐ शब्दतत्पराय नमः ॐ धां गसेविताय नमः ॐ ढकालं कृतहस्ताय नमः ॐकारस्य कामधेनुर्देवता सर्वार्थसिद्धौ विनियोग नमः नमूर्तये नमः ॐ नाकाराय नमः ॐ तकारस्य धनो देवता धनधान्याति लाभे विनियोग नमः ॐ तकारस्वरूपाय नमः ॐ त्रिकगुधे नमः ॐ त्रिकालानिकालाय नमः ॐ त्रिकलाय नमः ॐ त्रिकालज्ञानाय नमः ॐ त्रिकालज्ञाय नमः ॐ त्रिकालाय नमः ॐ त्रिकालमुनिप्रियाय नमः ॐ त्रिकालपूजनप्रीताय नमः ॐ त्रिगुणेशाय नमः ॐ त्रिकालज्ञानदाय नमः ॐ त्रिगुणाय नमः ॐ दिग्मायुधराय नमः ॐ दिग्मन्यवे नमः ॐ दिग्मायुधाय नमः ॐ दिमचक्षुषे नमः ॐ त्रिगुणनिर्मुक्ताय नमः ॐ त्रिगुणममर्धनाय नमः ॐ त्रिगुणात्मकाय नमः ॐ दिग्मांसवे नमः ॐ त्रिगुणासारथये नमः ॐ त्रिगुणस्वरूपाय नमः ंशाय नमः ॐ तुङ्गभद्राधीरवासाय नमः ॐ त्रिचक्षुषे नमः ॐ त्रिजटाय नमः ॐ त्रिजन्मणे नमः ॐ तेजसे नमः ॐ तेजोमूर्तये नमः ॐ तेजसाम्भर्त्रे नमः ॐ तेजोदिव्यापिने नमः ओम ॐ तेजसानव्रताय नमः ॐ तेजस्कराय नमः ॐ तेजोपहारिणे नमः ओम तेजोलिङ्काय नमः ॐ तेजसां पतये नमः ॐ तेजोरासये नमः ओम तेजोविधये नमः ॐ तेजोमयाय नमः ॐ तेजसां निधाय नमः ॐ तेजोमयस्फुरद्रूपाय नमः ॐ त्रिज्ञानमूर्तये नमः ॐ तटस्थाय नमः ॐ तटिल्लतासमरुचये नमः ॐ ताण्डवप्रियाय नमः ॐ तण्डुवाहनाय नमः ॐ तण्डुदुर्गानादाय नमः ॐ तृणावर्ताय नमः ॐ त्रिणीकृतमहाग्राहाय नमः ॐ तत्पुरुषाय नमः ॐ तत्पुरुषात्मकवदनाय नमः ॐ तत्पुरुषामकपूर्ववदनाय नमः ॐ तत्पुरुषात्मकललादिकाय नमः ॐ तत्पुरुषात्मने नमः ॐ तत्पदलक्षार्ताय नमः ॐ तत्पधोपललक्षार्ताय नमः ॐ तत्त्वधोपाहितार्ताय नमः ॐ तत्त्वाय नमः ॐ तत्त्वविधे नमः ॐ तत्त्वलिङ्गाय नमः ॐ तत्त्वातीताय नमः ॐ तत्त्वानाम्रत्यवे नमः ॐ तत्त्वातत्त्वविवेकात्मने नमः ॐ तत्त्वरूपाय नमः ॐ तत्त्वमूर्तये नमः ॐ तत्त्वाद्वास्ताधिकाय नमः ॐ तत्रैव ब्रह्ममयाय नमः ॐ तृतीयाय नमः ॐ त्रेधाग्निमयरूपाय नमः ॐ तन्तुवर्धनाय नमः ॐ तन्त्रमार्गरथाय नमः ॐ तन्त्राय नमः ॐ तन्त्ररूपाय नमः ॐ तन्त्रिणे नमः ॐ तन्त्रतन्त्रिणे नमः ॐ तन्त्रज्ञाय नमः ॐ तन्त्रसिद्धाय नमः ॐ तन्त्ररथाय नमः ॐ तन्त्रमन्त्रफलप्रदाय नमः ॐ तन्त्रयन्त्रात्मकाय नमः ॐ तन्त्रलयविधानज्ञाय नमः ॐ तन्त्रमार्गप्रदर्शकाय नमः त्रसाक्षिणे नमः ॐ तान्त्रीकाय नमः ॐ तान्त्रीकोत्तमाय नमः ॐ तान्त्रिकभूषणाय नमः ॐत्रात्रे नमः ॐ त्रितत्वद्रुते नमः ॐ तिन्त्रिणीशाय नमः ॐ तिन्त्रिणी नमः ॐ तिन्त्रिणी नमः ॐ तत्त्वस्थाय नमः ॐ तत्त्वज्ञाय नमः ॐ तत्त्वनिलयाय नमः ॐ तत्त्ववास्याय नमः ॐ तत्त्वमर्थस्वरूपकाय नमः ॐ तत्त्वासनाय नमः ॐ तत्त्वमस्यादिवाक्यार्धाय नमः ॐ तत्त्वज्ञानप्रबोधकाय नमः ॐ तत्सवितोर्जभसन्तुष्टमानाय नमः ॐ तत्पदार्थस्वरूपकाय नमः ॐ त्रेताय ॐ त्रेताय जनप्रीतमानसाय नमः ॐ तैत्रीयकाय नमः ॐ तत् य नमः ॐ तिथिप्रियाय नमः ॐ तदन्तर्वार्थिने नमः ॐ तद्रूपाय नमः ॐ त्रित्साय नमः ॐ त्रिदेवाय नमः ॐ त्रिधसाधिपाय नमः ॐशालयैरभिवन्दिताय नमः ॐ त्रिदोषाय नमः ॐ तुदथे नमः ॐ त्रिधाम्ने नमः ॐ तनवे नमः ॐ तन्मात्रलिङ्गिने नमः ॐ तनूनपाधे नमः ॐ तनूधराय नमः ॐ तनातनाय नमः ॐ त्रिनेत्राय नमः ॐ त्रिनयनाय नमः ॐ त्रिनाम्ने नमः ॐ तपसे नमः ॐ तपस्विने नमः ॐ तपःशीलाय नमः ॐ तपःस्वाध्याय निरताय नमः ॐ तपस्विजनसेव्याय नमः ॐ तपोधानफलप्रदाय नमः ॐ तपोलोकजनध्याय नमः ॐ तप्तकांशनभूषणाय नमः ॐ तपोनिधये नमः ॐ तपःशक्ताय नमः ॐ तपसां फलदात्रे नमः ॐ तपोरूपाय नमः ॐ तपो बीजाय नमः ॐ तपोधनधनाय नमः ॐ तपसां निधये नमः ॐ तपनीयनिभाय नमः ॐ तापसाय नमः ॐ तापसाराध्याय नमः ॐ त्रपाकराय नमः ॐ त्रिपुरान्तकाय नमः ॐ त्रिभुण्ड्रविलसत्फालफलकाय नमः ॐ त्रिप्रकारस्थिताय नमः ॐ त्रिपुरज्ञाय नमः ॐ त्रिपुरघातिने नमः ॐ त्रिपुरकालाग्नये नमः ॐ त्रिपुरभैरवाय नमः ॐ त्रिपुरार्धनाय नमः ॐ त्रिपुरारये नमः ॐ त्रिपुरसंहारकाय नमः ॐ त्रिपाधाय नमः ॐ त्रिपञ्चन्याससंयुताय नमः ॐ ताम्बूलपूरितमुकाय नमः ॐ त्रिबन्धवे नमः ॐ त्रिभीजेशाय नमः ॐ त्र्यम्बकाय नमः ॐ तुम्भवीणाय नमः ॐ तुम्भवीणाशालिने नमः ॐ तुम्बीफलप्राणाय नमः ॐ तुम्बुरुस्तुताय नमः ॐ तुभ्यं नमः ॐ तमसे नमः ॐ तमोगुणाय नमः ॐ तमोपहाय नमः ॐ तमसत्पराय नमः ॐ तमयाय नमः ॐ तमिश्रग्ने नमः ॐ तमिष्टमदनाय नमः ॐ तमिष्टानायकाय नमः ॐ तमिनूढाय नमः ॐ तमालकुसुमाकृतये नमः ॐ तामसात्मने नमः ॐ तामसप्रियाय नमः ॐ ताम्रजिह्वाय नमः ॐ ताम्रचक्षुषे नमः ॐ ताम्रवक्त्राय नमः ॐ ताम्राधराय नमः ॐ ताम्राय नमः ॐ ताम्रोष्ठाय नमः ॐ ताम्रचूाय नमः ॐ ताम्रवर्णभिलप्रियाय नमः ॐ ताम्रभरणि जलप्रियाय नमः ॐ ताम्रनेत्रविभूषिताय नमः ॐ ताम्रभरणि समुद्रसङ्गमे सेतुबन्धरामेश्वराय नमः ॐ त्रिमूर्तये नमः ॐ त्रिमधुराय नमः ॐ त्रिमलेशाय नमः ॐ त्रिमेखलाय नमः ॐ तुमुलाय नमः ॐ तोमराय नमः ज्ञोपवीताय नमः ॐ त्रयि मूर्तये नमः ॐ त्रयी तनवे नमः ॐ त्रयीमयाय नमः ॐ त्रयी वेत्याय नमः ॐ त्रयी वन्द्याय नमः ॐ त्रय्यन्तनिलयाय नमः ॐ तोयात्मने नमः ॐ तरुणाय नमः ॐ तरलाय नमः ॐ तरस्विने नमः ॐ तरुणार्कसमद्युतये नमः ॐ तरणये नमः ॐ तरणी नमः ॐ तरणीनयनाय नमः ॐ तरङ्किणीवतंसाय नमः काय नमः ॐ तरणेन्दुषिकाय नमः ॐ तरुणेन्दुशेखराय नमः ॐ तरुणाधित्यसङ्काशाय नमः ॐ तारकारिजनकाय नमः ॐ तारलोचनाय नमः ॐ तारकासुरविध्वंसिने नमः ॐ तारकान्ताय नमः ॐ तारनायकभूषाय नमः ॐ ताराय नमः ॐ तराधिनाथाय नमः ॐ तारणाय नमः ॐ तारदन्तन्तमध्यगाय नमः ॐ तरातम्यज्ञाय नमः ारानाथाय नमः ॐ तारधराय नमः ॐ तारधिबनिभाननाय नमः ॐ तारानाथसमद्युतये नमः ॐ तारानाथकलामौलये नमः ॐ तारापतिनिषेविताय नमः ॐ ताक्ष्याय नमः ॐ ताक्ष्यविनुताय नमः ॐ तीर्थाय नमः ॐ त्याय नमः ॐ तीर्तिने नमः ॐ तीर्थभूमिरधाय नमः ॐ तीर्थश्राद्धफलप्रदाय नमः ॐ तीर्थपरायणाय नमः ॐ तीर्थप्रीतये नमः ॐ तीर्थरथाय नमः ॐ तीर्थदेवाय नमः ॐ तीर्थपादाय नमः ॐ तीर्थतत्त्वाय नमः ॐ तीर्थदेवशिवालयाय नमः ॐ दुरङ्गवाहनारूढाय नमः ॐ तुरीयचैतन्याय नमः ॐ तुर्याय नमः ॐ तोरणाय नमः ॐ तोरणेशाय नमः ॐ त्रिराशिकाय नमः ॐ त्रैराशिकफलप्रदाय नमः ॐ तर्क्यातर्क्यशरीराय नमः ॐ तलाधिभुवनान्तस्ताय नमः ॐ तलाय नमः ॐ तल्प्याय नमः लाय नमः ॐ तालूरन्ध्रस्थिताय नमः ॐ तालीप्रियाय नमः ॐ तालतराय नमः ॐ ताल्याय नमः ॐ तिलाक्षतप्रियाय नमः ॐ तिलान्नप्रीतमानाय नमः ॐ तिलपर्वतरूपद्रुते नमः ॐ तिलपिष्टान्तभोजिने नमः ॐ तिलमनसे नमः ॐ त्रिलोकवासिने नमः ॐ त्रिलोकरक्षकाय नमः ॐ त्रिलोचनाय नमः ॐ त्रिलोकेशाय नमः ॐ त्रिलिङ्गरहिताय नमः ॐ त्रिलोकात्मने नमः ॐ त्रिलोकमुद्रिकाभूषाय नमः ॐ त्रैलोक्यसुन्दराय नमः ॐ त्रैलोक्यमोहनाय नमः ॐ त्रैलोक्यनाथाय नमः ॐ त्रैलोक्यपालिने नमः ॐ त्रैलोक्यवासिने नमः ॐ तुलसीभिल्वनिर्गुण्डी जम्बीरामलकप्रियाय नमः ॐ तुलामादस्नानतुष्टाय नमः ॐ तुलाधानफलप्रदाय नमः ॐ तुलाजापुरनायकाय नमः ॐ तुलापुरुषरूपभद्रुते नमः ॐ तुलाय नमः ॐलभुद्नाय नमः ॐ तैलमोदकदोषणाय नमः ॐ तैलप्रीताय नमः ॐ तैलभोजनतत्पराय नमः ॐ तैलदीपप्रियाय नमः ॐ तैलपक्षान्तप्रीतमानसाय नमः ॐ तैलाभिषेकसन्तुष्टाय नमः ॐ तैलचर्वणतत्पराय नमः ॐ तैलाहारप्रियप्राणाय नमः ॐ त्रिविष्टपेश्वराय नमः ॐधागतये नमः ॐ त्रिविद्याय नमः ॐ त्रिवराय नमः ॐ त्रिविष्टपाय नमः ॐ त्रिविक्रमाय नमः ॐ त्रिविलोचनाय नमः ॐ त्रिविक्रमार्चिताय नमः ॐ त्रिविक्रमेश्वराय नमः ॐ त्रिवर्गय ॐ त्रिवर्गयज्ञधाय नमः ॐ त्रिवर्गधाय नमः ॐ त्रिवर्गाय नमः ॐ तीव्राय नमः ॐ तीव्रवेदशब्दधृते नमः ॐ तीव्रयष्टिकराय नमः ॐ त्रिशक्तियुताय नमः ॐ त्रिशिरसे नमः ॐ त्रिशूलाय नमः ॐ त्रिशुक्लसम्पन्नाय नमः ॐशं कवे नमः ॐ त्रिशं नमः ॐ त्रिशूलपाणये नमः ॐशूलिने नमः ॐ त्रिशूलचर्मधारिणे नमः ॐ त्रिशूलपट्टसधराय नमः ॐ त्रिशूलधारिणे नमः ॐ त्रिशूलभीषणाय नमः ॐ त्रिशब्दपरायणाय नमः ॐ त्वष्ट्रे नमः ॐ तुष्याय नमः ॐ तुष्टाय नमः ॐ तुष्टभक्तेष्टदायकाय नमः ॐ तुष्टिप्रधाय नमः ॐ तुषाराचलमध्यस्थाय नमः ॐ तुषारवनभूषणाय नमः ॐ तुषमयाय नमः ॐ तुष्टातुष्टप्रसाधकाय नमः ॐ तुषाराद्रीसीताप्रियाय नमः ॐ तोषिताखिलदेवौघाय नमः ॐ तस्मै नमः ॐ तस्मादपिवराय नमः ॐ तस्कराध्यक्षाय नमः ॐ तस्करशिक्षकाय नमः ृस्थाय नमः ॐ त्रिस्वरूपाय नमः ॐ त्रिसन्ध्याय नमः ॐ त्रिसुगन्धाय नमः ॐ त्रिहस्तकाय नमः ॐ तुखिनाद्रिचराय नमः ॐ तुखिनाचलसङ्घाषाय नमः ॐ तालिने नमः ॐ तक्षकक्रीडनाय नमः ॐ तक्षकाय नमः ॐ तक्षाय नमः ॐ तक्ष्णे नमः ॐ त्रक्षाय नमः ॐ तक्षकाय नमः ॐ त्रक्षराय नमः ॐ तीक्ष्णवरप्रदाय नमः ॐ तीक्ष्णपरवे नमः ॐ तीक्ष्णाय नमः ॐ तीक्ष्णतापाय नमः ॐ तीक्ष्णकृपणाय नमः ॐ तीक्ष्णरस्मये नमः ॐ तीक्ष्णेष्टमे नमः ॐ ॐ तकारस्य धर्मराजो देवता विषणासने विनियोग नमः ॐ तकारकूटनिलयाय नमः ॐ तकाराय नमः ॐ तसुकप्रदाय नमः ॐ तसेखराय नमः ॐ तिं तिमिने नमः ॐ तिमिरूपाय नमः ॐ तैं नाट्यनायकाय नमः ॐ तं दक्षिणाभाकुभूषणाय नमः दकारस्य महालक्ष्मीदेवताविशनासने विनियोग नमः काराय नमः ॐ दिक्पतये नमः ॐ दुःखहन्त्रे नमः ॐ दुःखोषविवर्जिताय नमः ॐ दिगम्बराय नमः ॐ दिवाससे नमः ॐ दिवस्त्राय नमः ॐ दुक्तान्धप्रीतमानसाय नमः ॐ दुःधाभिशेषणप्रीताय नमः ओम् दृग्रूपाय नमः ॐ दोग्ध्रे नमः ॐ द्विजोत्तमाय नमः ॐ दण्डाय नमः ॐ दण्डिने नमः ॐ दण्डगस्ताय नमः ॐ दण्डरूपाय नमः ॐ दण्डनीतये नमः ॐ दण्डकारण्यनिलयाय नमः ॐ दण्डप्रसातकाय नमः ॐ दण्डनाथप्रपूजिताय नमः ॐ दाडिमी पुष्पाभाय नमः ॐ दाडिमी पुष्पभूषिताय नमः ॐ दाडिमी बीजरतनाय नमः ॐ दाडिमी कुसुमप्रियाय नमः ॐ दृढाय नमः ॐ दृढप्रज्ञाय नमः ॐ दृढायुधाय नमः ॐ दृढधन्विने नमः ॐ दृढवैद्यरताय नमः ॐ दृढचारिणे नमः ॐ द्रोणपुष्पप्रियाय नमः ॐ द्रोणाय नमः ॐ द्रोणपुष्पार्चनप्रियाय नमः ॐ दात्रे नमः ॐ दान्ताय नमः ॐ द्वात्रिंशत्त्वरूपाय नमः ॐ दुद्धूरकुसुमप्रियाय नमः ॐ द्युतिमते नमः ॐ द्युतिधराय नमः ॐ दूताय नमः ॐ दैदीभ्यमानाय नमः ॐ दैत्यज्ञे नमः ॐ दै त्यदानवरक्षसामपतये नमः ॐ दैत्यानामन्तकेशाय नमः ॐ दैत्याक्रन्थकराय नमः ॐ दैत्यामन्दकाय नमः ॐ दैत्यधर्भनिषूदनाय नमः ॐ द्योताय नमः ॐ द्वन्द्वातीताय नमः ॐ द्वादशास्त्रासनाय नमः त्मस्वरूपिणे नमः ॐ धुन्दुभाय नमः ॐ दुन्दुभ्याय नमः ॐ दुन्दुभये नमः ॐ दुन्दुभेर्तनाय नमः ॐ तनुजारये नमः ॐ दानवारये नमः ॐ दानवनाशनाय नमः ॐ दानरूपाय नमः ॐ दानस्थानदोषिताय नमः ॐ दानवान्तकाय नमः ओम दानाध्यक्षाय नमः ॐ दीननादाय नमः ओम दीनकरकोटिप्रभाकरलिङ्गाय नमः ॐ ओम नमः ॐ दीननाथाय नमः ॐ दीनार्तिहृदय नमः ॐ दीनदैन्याविमोचनाय नमः ॐ दैन्त्यहन्त्रे नमः ॐ दर्भग्ने नमः ॐ दर्पिताय नमः ॐ द्वीपानां प्रभवे नमः ॐ दीप्ताय नमः ॐ दीप्तये नमः ॐ दीप्तिमदे नमः ॐ दीप्तमूर्तये नमः ॐ दीप्तागमोरवे नमः ॐ दृप्तये नमः ॐ दम्पाय नमः ॐ दम्परहिताय नमः ॐ दम्भदाय नमः ॐ दम्बनाशकाय नमः ॐ दम्बविवर्जिताय नमः ॐ दमाय नमः ॐ दमनाय नमः ॐ दमयित्रे नमः ॐ धमात्मकाय नमः ॐ दामोदरप्रियाय नमः ॐ द्युमनये नमः ॐ दयालवे नमः ॐ दयाकराय नमः ॐ दयासिन्धवे नमः ॐ दयासुधानयनाय नमः ॐ दयासुधाम्बुदये नमः ॐ दयानिदये नमः ॐ दयावते नमः ॐ दयापराय नमः ओं दयावराय नमः ॐ दर्पणाय नमः ॐ दर्परूपाय नमः ॐ दर्पनाशकाय नमः ॐ दरीसंस्थाय नमः ॐ दरदम्बुजलोचनाय नमः ॐ तरस्मेरमुखाम्बुजाय नमः ॐ धरान्दोलितदीर्घाय नमः ॐ दारुकावनवासेश्वराय नमः ॐ दारुकावनमौनिस्त्रीमोहनाय नमः ओं दारुकारण्यनिलयाय नमः ओं दारिद्र्य समनाय नमगा ओं दारित्र्य नमः ओं दारित्र्य नमः ॐ दारित्र्य नमः ॐ दीर्घतपसे नमः ॐ दीर्घाय नमः ॐ दीर्घस्मृकैकस्मृगाय नमः ॐ दीर्घसूद्राय दीर नमः ॐ दीर्घिका जलमध्यगाय नमः ॐ दीर्घदर्शिने नमः ॐ दुर्वाससे नमः ॐ दुरावासाय नमः ॐ दुरासदाय नमः ॐ दुर्गमाय नमः ॐ दुर्गाय नमः ॐ दुर्लभाय नमः ॐ दुर्गेयाय नमः ॐ दुराधराय नमः ॐ दुर्भवाय नमः ॐ दुदर्शाय नमः ॐ दुर्जयाय नमः ॐ दुरविक्रमाय नमः ॐ दुर्लभ्याय य नमः ॐ दुर्दमाय नमः दुर्धान्ताय नमः ॐ दुराराध्याय नमः ॐ दुरध्ययाय नमः ॐ दुर्धराय नमः ॐ दुराधर्शाय नमः ॐ दुरारोहाय नमः ॐ दुरुत्तराय नमः ॐ दुरितापहारकाय नमः ॐ दुरितमत्तमदङ्गजपञ्चाननाय नमः ॐ दुर्गेशाय नमः ॐ दुर्गभवसागरतारणाय नमः ॐ दुर्गवरदायकाय नमः ॐ दुरिदग्ने नमः ॐ दुर्भीतिनाशनाय नमः ॐ दुरितापहाय नमः ॐ दुर्वारभुजविक्रमाय नमः ॐ दुरार्दिग्ने नमः ॐ दुर्वारविक्रमाय नमः ॐ दुराचारप्रशमनाय नमः ॐ दुरश्रवसे नमः ॐ दूरे वधाय नमः ॐ दूर्वासमुनिपूजिताय नमः ॐ दूर्वा युग्मसमाराध्याय नमः ॐ द्रवते नमः ॐ द्रविणाय नमः ॐ द्रव्याणां प्रभवे नमः ॐ द्रव्याय नमः ॐ द्रव्यस्वरूपधृते नमः ॐ दम्वामबाहुभूषणाय नमः ॐ दिवस्पतये नमः ॐ दिव्याय नमः ॐ दिवाकराय नमः ॐ दिव्यनृत्याय नमः ॐ दिवोधासेश्वराय नमः ॐ दिव्यभोगाय नमः दिव्यानन्दाय नमः ॐ दिविसुपर्वणाय नमः ॐ दिव्यान्धरिक्षगमनाय नमः ॐ दिव्यमाल्याम्बरविभूषिताय नमः ॐ दिव्यायुधराय नमः ॐ दिव्यास्त्रविदे नमः ॐ दिव्यलोचनाय नमः ॐ दिव्यदेहप्रभागूटसन्तिविदादिगन्धराय नमः ॐ दिव्यमालासमन्विताय नमः ॐ दिव्यलेपविराजिताय नमः ॐ दिव्यचन्दनचर्चिताय नमः ॐ दिव्यादिसेव्याय नमः ॐ दिव्यचक्षुषे नमः ॐ दिव्यधरुवाटिकुसुमबृन्दनिषन्दमानमगरन्दुसप्तो संकिलयमानसकलाङ्गाय नमः ॐ दिव्यसायिने नमः ॐ दिव्यनृतप्रवृत्ताय नमः ॐ दिव्यसहस्रभागवे नमः ॐ दिव्याग्रन्थकराय नमः ॐ देवाय नमः ॐ देवराजसेव्यमानपावनां द्रिपङ्कजाय नमः ॐ देवदेवाय नमः ॐ देवेन्द्राय नमः ॐ देवयोग्याय नमः ॐ देवभोग्याय नमः ॐ देवभोगधाय नमः ॐ देवर्षिमण्डेदाय नमः ॐ देवर्षिवर्याय नमः ॐ देवतार्तिप्रशमनाय नमः ॐ देववेट्याय नमः ॐ देवदा नमः